अथ सप्तविंशः सर्गः ताम् स्तुते सम्प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् राघवार्थे पराक्रान्ता येन रक्षन्ति जीवितम् स्निग्धा यस्य बहुव्यामा दीर्घलाङ्गूलमाश्रिताः ताम्राः पीताः सिताश्वेताः प्रकीर्णाघोरकर्मणः प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः पृथिव्याम् चानुकृष्यन्ते हरो नामैषवानरः यम् पृष्ठतोऽनुगच्छन्ति शतशोथसहस्रशः वृक्षानुद्यम्य सहसालङ्कारोहण तत्पराः यूथपाहरिराजस्य किङ्कराः समुपस्थिताः नीलानिव महामेघाम् स्तिष्ठतो यांस्तु पश्यसि संकाशान असीताजन सषादे सत्यपराक्रसख्येयान निर्देशन पारो दधे पर्वतेषु चे कचिद विषय नदीसुच तामर्तंते राजन रक्षा सुदारुणा यहां मध्ये स्थित राजीमा क्षोमदर्शन है इव जीमूत सपरी ऋक्षवन्तम् गिरिश्रेष्ठमध्यास्ते नर्मदाम् पिबन् सर्वरक्षाणामधिपतिर्धूम्रो नामैष यूथपः यवीयानस्य तु भ्राता पश्यैनम् पर्वतोपमम् भ्रात्रा समानो विशिष्टस्तु पराक्रमे स एष महायूथपयूथपः प्रशान्तो गुरुवर्ती च सम्प्रहारेश्वमर्षणः एतेन सा ह्यम् तु महत्कृतम् शक्रस्य धीमता दैवासुरेजाम् भवता लब्धाश्च बहवो वराः आरुह्यपर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च राक्षसानाम् च सदृशाः पिशाचानाम् च रोमशाः एतस्य सैन्या बहवो विचरन्त्यमितौ य एनमभिसंरद्धम् प्लवमानमवस्थितम् प्रेक्षन्ते वा नराः सर्वे स्थितायूथपयूथपम् एष राजन् सहस्राक्षम् पर्युपास्ते हरीश्वरः बलेन बलसंयुक्तो दम्भो नामैष यूथपः यः योजने शैलं गच्छन् पार्श्वे सेवते ऊर्ध्वम् तथैव कार्येण गतः योजनम् यस्मात्त्वपरमम् रूपम् चतुष्पात्सु न विद्यते श्रुतः सन्नादनो नाम वाणराणाम् पितामहः येन युद्धम् तदा दत्तम् रणे धीमता पराजयश्च न प्राप्तः सोऽयम् यूथप यूथपः यस्य विक्रममाणस्य पराक्रमः एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना तदा देवासुरे युद्धे सा ह्यार्थम् त्रिदिवौकसाम् यत्र वैश्रवणो राजा जम्बूमुपनिषेवते यो राजा पर्वतेन्द्राणाम् बहु किन्नरसेविनाम् विहारसुखदो नित्यम् भ्रातुस्ते राक्षसाधिप तत्रैश रमते श्रीमान् बलवान् वानरोत्तमः युद्धेष्वकर्थनो नित्यम् क्रथनो नाम वृतः कोटिसहस्रेण हरीणाम् समवस्थितः एषैवाशंसते लङ्काम् स्वेनानीकेन मर्दितुम् यो गङ्गामनुपर्येति त्रासयन् गजयूथपान् हस्तिनाम् वानराणाम् च पूर्ववैरमनुस्मरन् एष यूथपतिर्नेता गर्जन् गिरिगुहाशयः गजान् रोधयते वन्यानारुजंश्च महीरुहान् हरीणाम् वाहिनी मुख्यो नदीम् हैमवतीमनु उषीरबीजमाश्रित्य मन्दरम् पर्वतोत्तमम् रमते वा नरः श्रेष्ठो दिविशक्र इव स्वयम् एनम् शतसहस्राणाम् सहस्रमभिवर्तते वीर्यविक्रमदृप्तानाम् नर्दताम् बाहुशालिनाम् स एष नेता चैतेषाम् वानराणाम् महात्मनाम् स एष दुर्धरो राजन् प्रमाथी नाम यूथपः वाते लेवोद्धतम् मेघम् यमेनमनुपश्यसि अनीकमपि संरब्धम् वानराणाम् तरस्विनाम् उद्धूतमरुणाभासम् पवनेन समन्ततः विवर्तमानं बहुशो यत्रैतद्बहुलम् रजः वेते सितमुखाघोरा गोलाङ्गूलामहाबलाः शतम् शतसहस्राणि दृष्ट्वा वैसेतु बन्धनम् गोलाङ्गोलम् हारा जगवाक्षम् नामयूथपम् परिवार्याभिनर्दन्ते लङ्काम् मर्दितुमोजसा भ्रमराचरिता यत्र सर्वकालफलद्रुमाः यम् सूर्यस्तुल्यवर्णाभमनुपर्येति पर्वतम् यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः यस्थ महात्मा न्यज महर्षय सर्वला वृक्षा सदा मधुनिच फलसमता मधूर्हा यस्पर्वतम त्रैश रम्ये कांचन पर्वते मुख्यो वानर मुख्याना के केसरीूथपिगिरी सहस्रा रम्यान पर्वता तेषाम् मध्ये गिरिवरस्त्वमिवा नखरक्षसा तत्रैके कपिलाश्वेतास्ताम्रा स्यामधुपिङ्गलाः निवसन्त्यन्तिमगिरौ तीक्ष्णदंष्टानखायुधाः सिंहा इव चतुर्दंष्ट्राव्याघ्रा इव दुरासदाः सर्वे वैश्वानरसमाज्वालादाशीविषोपमाः सुदीर्घाञ्चितलाङ्गूला मत्तमातङ्गसन्निभाः महापर्वतसङ्काशा महाजीमूतनिस्वनाः वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वनाः मर्दयन्तीव ते सर्वे तस्थुर्लङ्काम् समीक्ष्यते एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवार् जया थी निपतिषति वीर्वान्न ना पृथिव्याख्याजतलीति यहांसते लंका स्ेनानीक मदिको बलवा पौरुषे स्वे व्यवस्थि राम रामप्रियार्थं प्राण दया न कुरुते गजो गवाक्षो गवयो नलो नीलश्च वानरः एकैकमेव एक योधानाम् कोटिभिर्दशभिर्वृतः तथान्ये वानरः श्रेष्ठा विन्ध्यपर्वतवासिनः न शक्यन्ते बहुत्वात् तु सङ्ख्यातुम् लघुविक्रमाः सर्वे महाराजमहाप्रभावाः सर्वे महाशैलनिकाषकायाः सर्वे समर्थाः पृथिवीम् क्षणे न कर्तुम् प्रविध्वस्तविकीर्णशैला इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तविंशः